अथ तैत्रियकारम्भः को लोकोऽसि स्वर्गोऽसि अनन्तोऽस्य पारोऽसि रक्षितोऽस्य क्षय्योऽसि तपसः प्रतिष्ठा त्वयीदमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वगुंसुभूतम् विश्वस्य भर्ता विश्वस्य जनजिता तन्त्रोपदधे कामधुघमक्षितम् प्रजापतिस्त्वा सादयतु तजा देवतजाङ्गिरस्वध्रुवासीद तपोसि लोके श्रितम् तेजसः विश्वस्य भर्तृविश्वस्य जनयत्रे तत्त्वोपदधेका मधुघमक्षितम् प्रजापतिस्त्वासादयतु तेजोऽसि तपसिश्रिताम् समुद्रस्य प्रतिष्ठा त्वयीदमन्तः विश्वन्यक्षम् विश्वम्भूतम् विश्वपुंसुभूतम् विश्वस्य भर्त्र विश्वस्य जनयित्र अत्वोपदधेकामधुघमक्षिताम् प्रजापतिस्त्वासादयतु प्रजादेव तजान्यरस्वध्रुवासीदा समुद्रोऽसि तेजसिश्रितः पपाम् प्रतिष्ठा त्वयीदमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वगुंसु भूतम् विश्वस्य भर्ता विश्वस्य जनयिता तन्त्रोपदधेकामधुघमक्षितम् प्रजापतिस्त्वासादयतो तया देवतया इरस्वध्रुवासीद पापस्थसमुद्रे श्रिताः पृथिव्याः प्रतिष्ठा युष्मासो इदमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वस्य भर्त्यो विश्वस्य जनयित्र्यः ताव उपदधे कामदुघाक्षिताः प्रजापतिस्त्वा साधयतु तया देवदयाङ्गिरः स्वध्रुवासीता पृथिव्यस्य सुश्रिता अग्नेः प्रतिष्ठा त्वयिदमन्तः विश्वम् यक्षम् विश्वम् भूतम् विश्वकुंसभूतम् विश्वस्य भर्त्री विश्वस्य जनयित्री ताम् त्वोपदधे कामदुघामुक्षिताम् प्रजापतिस्त्वा साधयतु प्रजादेवतयाङ्गिरस्वध्रुवासीज अग्निरसि पृथिव्यागिश्रितः अन्तरिक्षस्य प्रतिष्ठा त्वयीदमन्तः विश्वम् विश्वस्य भर्ता विश्वस्य जनयिता तन्तोपदधे कामधुघमक्षितम् प्रजापतिस्त्वा सादयतु प्रजादेवतयाङ्गिरस्वध्रुवासीद अन्तरिक्षमस्य त्वयैदमन्तः विश्वं यक्षम् विश्वम्भूतम् विश्वकुंसुभूतम् विश्वस्य भर्तृविश्वस्य जनयितृतत्त्वोपदधेता मधुधमक्षितम् प्रजापतिस्त्वासादयतो यदा देवतयाङ्गिरस्वध्रुवासेद वायुरस्यन्तरिक्षे श्रितः दिवः प्रतिष्ठा त्वयैदमन्तः विश्वं यक्षम् विश्वम्भूतम् विश्वकुंसुभूतम् विश्वस्य भर्ता विश्वस्य जनयिता तन्त्वपदधे कामधुघमक्षितम् प्रजापतिस्त्वा साधयतु तया देवतयाङ्गिरस्वध्रुवासीदा ग्यौरशिवायौ श्रिता आदित्यस्य प्रतिष्ठा त्वयिदमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वपुंसभूतम् विश्वस्य भर्त्री विश्वस्य जनयित्री ताम् त्वोपदधेकामधुघामक्षिताम् प्रजापतिस्त्वा साधयतु तया देवतयाङ्गिरस्वध्रुवासीद आदित्योऽसि दिविश्रितः चन्द्रमसः प्रतिष्ठा त्वयैदमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वपुंसभूतम् विश्वस्य भर्ता विश्वस्य जनयिता तन्तोपदधे कामधुघमक्षितम् प्रजापतिस्वासादयतो तया देवदयाङ्गिरस्वद्ध्रुवासीद चन्द्रमा अस्यादित्ये नक्षत्राणाम् प्रतिष्ठा त्वयि इदमन्तः विश्वञ्यक्षम् विश्वम्भूतम् विश्वपुंसभूतम् विश्वस्य कर्ता विश्वस्य जनहिता पन्थोपदधेता मधुघमक्षितम् प्रजापतिस्त्वासादयत् अयादेवतयाङ्गिरस्वध्रुवासीदा नक्षत्राणि स्थचन्द्रमसि श्रितानि संवत्सरस्य प्रतिष्ठा युष्मासु इदमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वपुंसु भूतम् विश्वस्य भर्तॄ विश्वस्य जनयित्रीणि तानि उपदधेटा मधुघान्यक्षितानि प्रजापतिस्त्वासादयतु तया देवतयाङ्गिरस्वध्रुवासीद संवत्सरोऽसि नक्षत्रेषु श्रितः ऋतोनाम् प्रतिष्ठा त्वयी दमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वपुंसु भूतम् विश्वस्य भर्ता विश्वस्य जनयिता तन्त्वोपदधेका मधुघमक्षितम् प्रजापतिस्त्वासादयतु तया देवतयाञ्जिरस्वध्रुवासीद्रतवस्थसंवत्सरे श्रिताः मासानाम् प्रतिष्ठा विश्वासो इदमन्तः विश्वन्यक्षम् विश्वम्भूतम् विश्वगुंसु भूतम् विश्वस्य भर्तारो विश्वस्य जनयितारः उपदधे का मधुघानक्षितान् प्रजापतिस्त्वासादयतो तया देवतयाङ्गिरस्वध्रुवासीद मासाकृषश्रिताः अर्धमासानाम् प्रतिष्ठा युष्मासो इदमन्तः विश्वम् यक्षम् विश्वम् भूतम् विश्वकंसुभूतम् विश्वस्य भर्तारो विश्वस्य जनयितारः तान् उपदधेका मधुघानक्षितान् प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वध्रुवासीता अर्धमासास्थमासु श्रिताः अहोरात्रयोः प्रतिष्ठा युष्मासो इदमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वगुंसुभूतम् विश्वस्य भर्तारो विश्वस्य जनयितारः आल्व उपदधे कामधुघानक्षितान् प्रजापतिस्त्वा अया देवतयारस्वध्रुवासीद अहोरात्रे स्थोर्धमासे शुश्रिते भूतस्य प्रतिष्ठे भव्यस्य प्रतिष्ठे युगोर्जनमतः विश्वम् यक्षम् विश्वम्भूतम् विश्वपुंसभूतम् विश्वस्य भर्त्यौ विश्वस्य जनयित्र्यौ ते रामुपदधे कामधुघे अक्षिते प्रजाप्रतिस्त्वा प्रयादेवदयाङ्गिरस्वध्रुवासीद पौर्णमास्यष्टकामा वास्याः अन्नादास्थाः नदुघो युष्मासो निदमन्तः विश्वयक्षम् विश्वम् भूतम् विश्वपुंसु भूतम् विश्वस्य भर्त्र्यो विश्वस्य जनयित्र्यः काम उपदधे कामदुघा अक्षिताः प्रजापजस्त्वा सादयतो ययादेवतयाङ्गिरस्वध्रुवासीद रारसिबृहती श्रीरसेन्द्रपत्नी धर्मपत्नी विश्वम्भूतमनुप्रभूता त्वयीदमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वपुंसु भूतम् विश्वस्य भक्ति विश्वस्य जनयित्री ताम् त्वापदधेकामधुभामक्षिताम् प्रजापतिस्त्वासादयतो तया देवतया युरस्वध्रुवासीता ओजोऽसि सहोऽसिलमसिभ्राजोऽसि देवानान्धामावृतम् अमर्त्यस्तपोजाः त्वयीदमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वपुंसभूतम् विश्वस्य भर्ता विश्वस्य जनहिता तन्तोपदधेका मधुघवक्षितम् प्रजापतिस्त्वा सादयतो तया देवतया गिरस्वध्रुवासीद त्वमग्ने रुद्रोत्सुरो महो दिवः त्वकुम् शर्धो मारुतम् वृक्ष त्वम् वातैररुणैर्यासिशङ्गयः त्वम् पूषाभिधतः पासिनुत्मनाः देवादेवेषु श्रयध्वम् प्रथमाद्वितीयेषु श्रयध्वम् द्वितीयास्तृतीयेषु श्रयध्वम् तृतीयाश्चतुर्थेषु श्रयध्वम् चतुर्थाः पञ्चमेषु श्रयध्वम् पञ्चमाः षष्ठेषु श्रयध्वम् षष्ठाः सप्तमेषु श्रयध्वम् सप्तमा अष्टमेषु श्रयध्वम् अष्टमा नवमेषु श्रयध्वाम् नवमादशमेषु श्रयध्वाम् असमा एकादशेषु श्रयध्वाम् एकादशा द्वादशेषु श्रयध्वम् द्वादशास्त्रयोदशेषु श्रयध्वाम् त्रयोदशाश्चतुर्दशेषु श्रयध्वम् चतुर्दशाः पञ्चदशेषु श्रयध्वाम् पञ्चदशा षोडशेषु श्रयध्वम् षोडशाः सप्तदशेषु श्रजध्वम् सप्तदशा अष्टादशेषु श्रयध्वम् अष्टादशा एकान्न त्रयोऽपि पुंसाश्चतुर्विपुंसेषुश्रयध्वाम् चतुर्विपुंसाः पञ्च विपुंसेषुश्रयध्वाम् पञ्चविपुंसाः षड्विपुंसेषुश्रयध्वान् षड्विपुंसाः सप्त विपुंसेषुश्रयध्वाम् सप्त विपुंसा अष्टापिपुंसेषुश्रयध्वाम् अष्टापिपुंसा एतान्न त्रिपुंसेषुश्रयध्वाम् एकान्न त्रिपुंसास्त्रिपुंसेषुश्रयध्वाम् त्रिपुंशात् एकत्रिगुंशेषुश्रयध्वम् एकत्रिपुंशाद्वात्रिगुंशेषुश्रयध्वम् द्वात्रिगुंशास्त्रयस्त्रिगुंशेषुश्रयध्वम् देवास्त्रिरेकादशास्त्रिस्त्रयस्त्रिपुंशाः उत्तरे भवत उत्तरवर्त्मान उत्तरसत्मानः यत्कामयिगम् जुहोमि तन्मे समृध्यताम् वयर्गस्यामपदयोरगीणाम् भूर्ध्वुवस्वस्वाहा अग्ना विष्णु सजोषसा हिमावर्धन्तु वाङ्गिरः युम्नैर्वाजेऽभिरागतम् राज्ञी विराज्ञी स्राज्ञी स्वराज्ञी अर्थिः शोचिः तपो हरोभाः गोपाः ते सर्वे सङ्गत्या इदम् मे प्रावतावचः वयज्ञस्यामपदयोरयीणाम् भूर्भुवस्व स्वाहा अन्नपदेऽन्नस्य नो देहि अनमेवस्य सुष्मिणः प्रदातारन्तारिषः ऊर्जन्नो देहि द्विपदे चतुष्पदे अग्ने पृथिवीपते सोमवीरुधाम्बते तृष्टः समिधाम्पते मित्रसत्यानाम् पते वरुणधर्मणाम् पते मरुतोगणानाम् पतयः रुद्रपशूनाम् पते इन्द्रौजसाम् पते बृहस्पते ब्रह्मणस्पते आरुचारोचे हव्यस्वयम् रुचारुरुचे रोचमानः अतीत्यादुस्वराभरेह तस्मिन योनौ प्रजनौ प्रजाय वयज्ञस्यामपतयोगीणाम् भोर्भुवस्वस्वाहा सप्त ते अग्ने समिधः सप्तजिह्वाः सप्तर्षयः सप्तधामप्रियाणि सप्तहोत्रानुविद्वान् सप्तयो नीरावृणःस्वाघृतेन प्राचीतिक अग्निर्देवता अग्निगुं स दिशाम् देवम् देवता नामृच्छत् यो मे दक्षिणादिक इन्द्रो देवता इन्द्रकं स दिशाम् देवम् देवतानामृच्छत व्योमेतस्यै दिशोऽभिदासति प्रतीचैदिक सोमो देवता सोमगुम् स दिशाम् देवम् देवतानामृच्छतु व्योमे तस्यै दिशोऽभिदासति उदीचैदिक दे मित्रावर्णौ देवता मित्रावर्णौ स दिशाम् देवौ देवतानामृच्छतु योमे तस्यै दिशोऽभिदासते ऊर्ध्वादिक् बृहस्पतिर्देवता बृहस्पतिपुंसदिशाम् देवम् देवतानामृच्छतु योमेतस्यै दिशोऽभिदासति दे, इजान्द्रिक् अदितिर्देवता अदितिपुंस दिशाम् देवी देवतानामृच्छतु वोमेतस्यै दिशोऽभिदासते दे, पुरुषोदिक् पुरुषो मे कामान् समर्थयत् अन्धो जागृविप्राण असावेहि वह्यः आक्रन्दयितरपान असावेहि उषसमुषसमशील उशासा, उशासा, अहमसो ज्योतिरशील अहमसोपोषील वयज्ञस्यामपजोर्हीणाम् भोर्भुवस्वस्वाहा यत्ते चित्यदु चित्न्ते अग्ने यत्त ऊनङ्गदुतेऽतिरिक्तम् आदित्यास्तदङ्गिवसश्चिन्वन्तु विश्वेते देवाश्चि दिवापूरयम्भो चितश्चासि सञ्चितश्चास्यग्ने एतावाभिश्चासि भोजागिश्चास्यग्ने लोकम् प्रणच्छिद्रम् प्रण अथासीदशिवाम् इन्द्राग्ने त्वा बृहस्पतिः अस्मिन् योनावशेषदान् तया देवतयाङ्गिरस्पध्रुवासीद पादस्य सूददोहसः सोमग्निश्रेणन्विपृष्णयः जन्मन् देवानाम् विशः विश्वारोचने दिवः तया देवतयाङ्गिरस्वध्रुवासीद अग्ने देवागुम् विहावः जज्ञानो वृत्तपरिषिषे असि होता न एड्यः अगन्महामनसायविष्ठाम् योदीदाय समिद्धस्वे दुरोणे चित्रभानोरोदसी अन्तरुर्वी स्वाहुतम् विश्वतः प्रत्यञ्चम् मेधाकारम् विदधस्य प्रसाधनम् अग्निगुम्होदारम् परिभूतमम् मतिम् त्वामर्भस्य हर्षः समानमित् त्वाम् महोवृणते नरो नान्यन्वत् मनुष्वत्त्वादि धीमहि मनुष्वत्समिधीमहि अग्ने मनुष्वदङ्गिरः देवान् देवायतेज च अग्निर्हि वाजिनम् विषे ददाति विश्वचर्षणिः ग्निराजे स्वाभुवम् स प्रीतो यादिवार्यम् इषग्रस्तो दृभ्याभर पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वापोषधीरा विवेश वैश्वानरः सहसा पृष्टो अग्निः स नादिवासरिषः पातु नक्तम् अयम् वावयः पवते सोऽर्नाचिकेतः स यत्राङ् पवते तदस्य शिरः अथ यद्दक्षिणा स दक्षिणः पक्षः अथ यत्प्रत्यग तत्पुच्छम् यदुदङ् स उत्तरः पक्षः अथ यत्संवाति तदस्य समञ्चनम् च प्रसारणम् च अथो सम्पदेवास्य सा अस्मै स पद्यते यत्कामो यजते योग्निम्नाचिकेतम् चिनुते य उचैनमेवम् वेद यो ह वा अग्नेर्नाचिकेतस्यायतनम् प्रतिष्ठाम् वेद आगतनवान् भवति गच्छति प्रतिष्ठाम् हिरण्यम् वा अग्नेर्नाचिकेतस्यायतनम् प्रतिष्ठा य एवम् वेद आगतनवान् भवति गच्छति प्रतिष्ठाम् यो ह अग्नेर्नाचिकेतस्य शरीरम् वेद सशरीर शरीर एव स्वर्गम् लोकमेति हिरण्यम् वा अग्नेर्नाचिकेतस्य शरीरम् य एवम् वेद स शरीर एव स्वर्गम् लोकमेति अथो यथा रुक्म उत्तप्तो भाह्यात् एवमेव स तेजसा यशसा अस्मिग्भिश्च लोकेऽस्मिग्भिश्च भाति गुरवो हवैनामैते लोकाः एव है ते हैते वरीयागुंसो लोकाः ये परेणादित्यम् अन्तवन्तकम् हवा एष क्षय्यम् लोकम् जयति यो परेणादित्यम् अथ हैषा मन्तवपारमक्षय्यम् लोकम् जयति यः परेणादित्यम् अनन्तकम् हवापारमक्षय्यम् लोकम् जयति योऽग्निम्नाचिकेतञ्चिरुते य उचैनमेवम् वेद अथो यथा रथे तिष्ठन् पक्षसी पर्यावर्तमाने प्रत्यपेक्षते एवमहोरात्रे प्रत्यपेक्षते नास्याहोरात्रे लोकमा आप्नुतः योऽग्निन्नाचिकेतञ्चिनुते य उचैनमेवम् वेद कुशन ह वैवाजस्रवसः अस्य हनचिकेता नाम पुत्र आस तगुम्हकुमारगम् सन्तम् दक्षिणासु नीलमानासु श्रद्धाविवेश सहोवाच तदकस्मैमान्दास्यसीति द्वितीयम् तृतीयम् तगुम्हपरित उवाच विद्ये त्वा ददामीति तगुम्हस्मात्सितम् वागभिवदति गौतमकुमारमिति सहोवाच परेः मृत्योर्गृहान् नृत्यवे वै त्वा दामिति त्वम् वै प्रवसन्तम् गन्दासीति होवाच तस्य स्म तिस्रोरात्रेरणाश्वान् गृहेऽवसदात् स यदित्वा पृच्छेत् कुमारकतिरात्रेरवात्सेरिति तिस्र इति प्रतिब्रूलात् किम् प्रथमागम् रात्रिमाश्ना इति प्रजान्त इति किम् द्वितीयामिति पशोगस्त इति किम् तृतीयामिति साधुकृत्यान्त इति तम् वै प्रवसन्तम् जगाम तस्य तिस्रोरात्रेरणाश्वान् गृह उवास तमागत्यपप्रच्छ कुमारगतिरात्रीरवात्सीरिति तिस्र इति प्रत्युवाच किम् प्रथमादुम् रात्रिमा स्ना इति प्रजान्त इति किम् द्वितीयामिति परशोगस्त इति किम् तृतीयामिति साधुवृत्त्यान्तरिति नमस्ते अस्तु भगवदिति होवाच वरम् वृणेष्वेति इतरमेव जीवन्न जानीति द्वितीयम् वृणेष्वेति दृष्टापूर्तजोर्मे क्षितिम् ब्रूहीति होवाच तस्मै हैतमग्निन्नाचिकेतमुवाच ततो वैतस्येष्टापूर्तेना क्षीयेते नास्येष्टापूर्ते क्षीयेते योऽर्ग्निन्नाचिकेतम् चिनुते य उचैनमेवम् वेद तृतीयम् वृणेष्वेति पुनर्मृत्योर्मेऽपचितिम् ब्रूहीति होवाच तस्मै हैतमग्निन्नाचिकेतमुवाच ततो वै सोऽप पुनर्मृत्युमजयत् अपपुनर्मृत्युम् जयति योऽग्निन्नाचिकेतम् चिनुते यगुचैनमेवम् वेदा प्रजापगर्वै प्रजाकामस्तभोदप्यता स हिरण्यमुदास्यत् तदग्नौ प्रास्यत् तदस्मैनाच्छदयत् तद्वितीयम् प्रास्यत् तदस्मै नैवाच्छदयत् तत्तृतीयम् प्रास्यत् तदस्मै नैवाच्छदयत् तदात्मन्नेव हृदयेऽग्नो मे एश्वानरे प्रास्यत् तरस्मा अच्छदयत् तस्माद्धिरन्यकनिष्ठन्धनानाम् भुञ्जत्प्रियतमम् प्रजयजम् हि स वैतमेव नाविन्दत् यस्मैताम् दक्षिणामनेष्यत् प्रायस्वालीव हस्ताय वहस्ताय अनयत् ताम् दक्षायत्वा दक्षिणाम् प्रतिगृह्णामीति सो प्रतिगृह्य दक्षते हवीदक्षिणाम् प्रतिगृह्य य एवम् वेद एतद्धस्मवेदद्विद्वापुंसो बाजश्रवसा गोतमाः अप्यनो देश्याः दक्षिणाम् प्रतिगृह्णन्ति उभयेन वयम् दक्षिष्यामः एव दक्षिणाम् प्रतिगृह्येति हे दक्षन्त दक्षिणाम् प्रतिगृह्य दक्षते हवीदक्षिणाम् प्रतिगृह्य य एवम् वेद प्रहान्यम् वीदाति लगुम्हैतमेके पशुबन्ध एवोत्तरवेद्याम् चिन्वते उत्तरवेदिसंवित एष अग्निरितिपदन्तः अन्न तथा कुर्यात् एतमग्निम् कामेन व्यर्भजेत् स एनम् कामेन व्यर्धः कामेन एतमग्निम् कामे न समर्थयति स कामे न समृद्धः कामे न समर्थयति का अधैनम् पुरर्षयः उत्तरवेद्यामेव सत्रियमचिन्वत ततो वैते विन्दन्तः प्रजा अभिस्वर्गम् लोकमजयन् विन्दत एव प्रजा अभिस्वर्गम् लोकम् जयति योऽग्निम्नाचिकेतम् चिनुते यौ चैनमेवम् वेद अथ हैनम् वायुर्रुद्धिकामः तथा न्युक्तमेवोपदधे ततो वै स एतामृद्धिमार्ध्नोक् यामिदम् वायुरुरुद्धः एतामृद्धिमृध्नोति या यामिदम् वायुर्वरुद्धः योऽग्निन्नाचिकेतम् चिनुते यौ चैनमेवम् वेद अध हैनम् गोबलो वाष्णः पशुकामः पान्तमेव चिक्ये पञ्च पुरस्तात् पञ्चदक्षिणतः पञ्चपश्चात् पञ्चोत्तरतः एताम् मध्ये ततो वै सहस्रम् पशून् प्राप्नोत् प्रसहस्रम् पशूना आप्नोति योऽग्निन्नाचिकेतम् चिनुते य उचैनमेवम् वेद अथ हैनम् प्रजापतिर्ज्येष्ठ्यकामयुषस्कामः प्रजननकामः त्रिभृतमेव चिक्ये सप्त पुरस्तात् तिस्रो दक्षिणतः सप्तपश्चात् तिस्र उत्तरतः एकाम् मध्ये ततो वै स प्रयसो ज्यैष्ठ्यमाप्नोत् एताम् प्रजातिम् प्राजायत यामिदम् प्रजाः प्रजायन्ते त्रिवृद्वैज्यैष्ठ्यम् मातापिता पुत्रः त्रिवृत्प्रजननम् उपस्थो योनिर्मध्यमा प्रयसो ज्येष्ठ्यमाप्नोति येताम् प्रजातिम् प्रजायते यामिदम् प्रजाः प्रजायन्ते यो अग्निन्नाचिकेतम् चिनुते यगुचैनमेवम् वेद अथ हैनमिन्द्रोर्ज्येष्ठ्यकामः ऊर्ध्वा एवोपदधे ततो वै सज्जेष्ठ्यमगच्छत् ज्येष्ठ्यम् गच्छति यो अग्निन्नाचिकेतम् चिनुते यौ चैनमेवम् वेद अथ हैनमसावादित्यः स्वर्गकामः प्राचीरेवोपदधे ततोऽपि सोऽभिःस्वर्गम् लोकमजयत् अभिस्वर्गम् लोकम् जयति योऽग्निन्नाचिकेतम् चिनुते यौ चैनमेवम् वेद स यतीच्छेत् तेजस्वी यशस्यै ब्रह्मवर्चसे स्यामिति प्राणाहो दर्भिष्ण्यादुत्सर्पेत् येजम् रागाद्यशस्वती सा मा प्रोर्णोत् तेजसा यशसा ब्रह्मवर्चसे नेति तेजस्येव यशस्वी ते ब्रह्मवर्चसे भवति अथ यदीच्छेत् भोयिष्ठम् मे श्रद्दधीरन् भोयिष्ठा दक्षिणासुमेजमानासु प्राच्ये हि प्राच्येहेतिप्राचेजुषाणावेत्वाज्यस्य स्वाहेति स्रुवे नोपहत्याः वनीरे जुभुयात् भूयिष्ठमेवास्मै श्रद्दधते भूयिष्ठा दक्षिणा नयन्ति पुरेशमुपधाय चितिकप्तिभिरभिवृश्य अग्निम् प्रणीजोपसमाधाय चतस्रजेता आहुतेऽर्जुहोति त्वमग्ने रुद्रगितिशतरुद्रीगस्य रूपम् अग्ना विष्णो इति वसोद्धारायाः अन्नपत इत्यन्न होमः सप्त ते अग्ने समिधः सप्तजिप्त्वा इति विश्वप्रीः याम्रथमाविष्टकामपदधाति इमान्तजा लोकमभिजयति अथो या अस्मिल्लोके देवताः तासा पुंसायुज्य पुंसलोकतामाप्नोति याम् द्वितीयामुपदधाति अन्तरिक्षलोकन्तयाभिजयति अथोया अन्तरिक्षलोके देवता आह तासा पुंसायुज्यगम् स लोकतामाप्नोति याम् तृतीयामुपदधाति अमुन्तया लोकमभिजयति अथो या अमुष्मिल्लोके देवता आह तासा गुंसायुजगम् स लोकतामाप्नोति अथो या अमुनितरा अष्टादश एवामी गुरवश्च परीजागुंसश्च लोकाः का नेवताभिरभितयति कामचारो हवा वा अस्यो ऋषिचपरीडस्व च लोकेषु भवति योऽग्निर्नाचिकेतम् च नुते य उचैनमेवम् वेद संवत्सरो वा तस्य वसन्दशिरः ग्रीष्मो दक्षिणः पक्षः उत्तरः शरत्पुच्छम् मासाः कर्मकाराः अहोरात्रे शतरुद्रीजम् पर्जन्यावसोर्धारा तथा वै पर्जन्यस्वकृष्णम् मृष्ट्वा प्रजाभ्यः सर्वान् कामान् सम्पूरयति एवमेव सतस्य सर्वान् कामान् सम्पूरयति यो अग्निर्नाचिकेतम् च मत् यौ चैनमेवम् वेद संवत्सरो वा अग्निर्नाचिकेतः तस्य वसन्तः शिरः ग्रीष्मो वर्षाः पुच्छम् शरदुत्तरः पक्षः हेमन्तो मध्यम् पूर्वपक्षाश्चिदयः अहोरात्राणिष्टकाः एष पावसो अग्निरग्निमजः पुनर्नवः अग्निमजो हमे पुनर्नवो भूत्वा स्वर्गम् लोकमेति आदित्यस्य सायुज्यम् योऽग्निम्नाचिकेतञ्चिनुते यौ यो चैनमेवम् वेद इति तैत्रियकारः द्वितीयप्रश्नः समाप्तः